मार्कण्डेयपुराणम् अध्यायं सिक्स्टि एय्ट् निधिवर्णनं क्रौष्टुकिरुवाच भगवन्कथितं सर्वं विस्तरेण त्वया मम स्वरोचिषस्तु चरितं जन्मस्वारोचिषस्य तु नाम विद्या भोगोपपादिका तत्संश्रयाये निधयस्तान्मे विस्तरदो वद अष्टौ ये निधयस्तेषां स्वरूपं द्रव्यसंस्थितिः भवदाभिहिदं सम्यक् श्रोतुमिच्छाम्यहं गुरो मार्कण्डेय उवाच पत्मिनी नाम विद्या लक्ष्मीस्तस्याश्च देवता तदा धाराश्च निधयस्तन्मे निगदधश्रुणु यत्र पद्ममहापद्मौ तथा मकरकच्छपौ मुकुन्दो नन्तकश्चैव नीलशङ्खोष्टमो निधिः सत्यामृद्धौ भवन्त्येदे सिद्धिस्तेषां हि जायते यदे ह्यष्टौ समाख्याता निधयस्तव क्रौष्टुके देवतानां प्रसादेन साधु संसेवनेन च येभिरालोकितं वित्तं मानुषस्य सदा मुने यादृक्स्वरूपं भवति तन्मे निग निगदधशृणु पद्मो नाम निधिः सयस्य स यस्य भवदिद्विज स तस्य तत्सुतानां च तत्पौत्राणां च नित्यशः दाक्षिण्यसारःपुरुषस्तेन चाधिष्ठितो भवेद् सत्त्वाधारो महाभागो यतोऽसौ सात्विको निधिः सुवर्णरूप्यताम्रादिधातूनां च परिग्रहं करोत्यतितरां शोध तेषां च क्रयविक्रयं करोति च तथा यज्ञान् दक्षिणाञ्च प्रयच्छति दि। सम्पादयति कामांश्च सर्वानेव यथा क्रमं सभां देवनिकेतांश्च स कारयदि तन्मनाः सत्त्वाधारो निधिश्चान्यो महापद्म इति श्रुतः सत्त्वप्रधानो भवति तेन चाधिष्ठितो नरः करोति पद्मरागादिरत्नानां च परिग्रहम् मौक्तिकानां प्रबालानां तेषां च क्रयविक्रयान् ददाति योगशीलेभ्यस्तेषामावसथांस्तथा सकार यदि तच्छीलस्वयमेव च जायते तत्प्रसूतास्तथा शीलाः पुत्रपौत्रक्रमेण च पूर्वर्धिमात्रसप्तासौ पुरुषांश्च न मुञ्चति तामसोमकरो नाम निधिस्तेनावलोकितः पुरुषोद्धतमःप्राय सुशीलोऽपि हि जायते बाणखड्गर्ष्टिधनुषां चर्मणां च परिग्रहं दंशनानां च कुरुदे। योधिमैत्रीचराजभिः ददाति शौर्यवृत्तीनां भूभुजां ये च तत्प्रियाः क्रय विक्रये च शस्त्राणां नान्यत्र प्रीदिमेति च ये कस्यैव भवत्येष द्रव्यार्थं दस्युतो नाशं सङ्ग्रामे वापि संव्रजेत कश्च पश्च निधिर्योऽसौ नरस्तेनाभिवीक्षितः तमःप्रधानो भवति यतोसौ तमसो निधिः व्यवहारा न शेषांस्तु पुण्यजाधैकरोति च कर्मस्थानखिलांश्चैव न विश्वसिति कस्यचिद् समस्तानि यथाङ्गानि संहरते क्छप तथा विष्टभ्यरत्नाकुलमस न दादीनवा दा भुंग्रे तद्नाशयाकुह निध्या सोप्येकूरष रजो गुणमयचान्यो मुकुंदो नामयो निधिहि नरो नरोऽवलोकितस्तेन तद्गुणो भवति द्विज वीणा वेणुमृदङ्गानामादोद्यस्य परिग्रहं करोदिगायदं वित्तं नृत्यताञ्च प्रयच्छति बन्धि मागधसूदानां विडानां लास्यपाढीनां ददात्यहर्निशं भोगान् भुङ्ेत्तैश्च समं द्विज दिश्चास्य कुलडासुरिश्चाच तद्विध प्रयाद संग निधि भजते नरम रजस्तमो मयच्चान्यो नंदो ना नाम महाधिस्तंभमीकलोक समात् पुण्यधान्यादिकस्य च परिग्रहं करोत्येष तथैव क्रयविक्रयम् आधारस्वजनानां च आगताभ्यागतस्य च सहतेनापमानोऽं स्वल्पमपि महामुने स्तूयमानश्च महतीं प्रीतिं बध्नादि यं यमिच्छति वै कामं मृदुत्वमुपयाति च बह्व्यो भार्या सप्तच सूदिमत्योधिशोभनाः भजते सप्त च नरान्निधिर्नन्दोऽनुवर्तते प्रवर्धमानोधनरमष्टभागेन सप्तमा दीर्घायुष्वं च सर्वेषां पुरुषाणां प्रयच्छति बंधूना भरण ये जूरा दुपता कौदि वै नंद परोक न चादृता स न चह सहवासीय पूर्व मित्रु शैथि्यम प्रीति मकती च तथैव सत्त्वरजसी यो बिभर्ति महान्निधिः सनीलसंज्ञस्तत्सङ्गी नरस्तच्छीलवान्भवेद् वस्त्रकार्पासधान्यादिफलपुष्पपरिग्रहं मुक्ताविद्रुमशङ्खानां शुक्त्यादीनां तथा मुने काष्ठादीनां करोत्येष यच्चान्यज्जलसम्भवं क्रयविक्रयमन्येषां नान्यत्र रमदे मनः तडागान् करोतिच तथा रामान् करोति च बन्धं च सरितं वृक्षांस्तोपयते नरः अनुलेपनपुष्पादिभोगभुग्वाभिजायते त्रिपौरुषश्चापि निधिर्नीलो नामैष जायते रजस्तमोमयश्चान्यः शङ्खसंज्ञो हियो निधिः तेनापि नीयते नरं नान्यमुपैति च यस्य शङ्को येक एवात्मना सृष्टमन्नं भुङ्े तथाम्बरं कथं न भुक्परिजनो न च शोभनवस्त्रधृक् न ददाति सुहृद्भार्याभ्रातृपुत्रस्नुषादिषु स्वपोषणपरशङ्घी नरो भवति सर्वदा इत्येते भवत्येव नाणमर्थदेता मिश्रालोकनास्वभालदाइन यदा ख्यास्वभास्तुविलोकनाषाधिपत्ये श्रीरेशा द्विजपत्म श्रीमाकंडेयपुराणे निधिवर्णनम अष्टषष्टितमोऽध्यायः ओम्